एवमीदृशकम् स्वप्नम् द्रक्ष्यसि त्वम् विशांपते मा तत्कृते कालोहि कालो हि दुरतिक्रमः स्वस्तितेस्तु गमिष्यामि कैलासम्पर्वतम् प्रति अप्रमत्तस्थितो दान्तः पृथिवीम् परिपालय वैशम्पायन उवाच एवमुक्त्वा स भगवान् कैलासम्पर्वतम् ययौ कृष्णद्वैपायनो व्यासः सह शिष्यैः गते पितामहे राजा चिन्ता निःश्वसन् उष्णमसकृत्तमेवार्थे विचिन्तयन् कथम् तु दैवम् शक्येत पौरुषेण प्रबाधितुम् अवश्यमेव भविता यदुक्तम् परमर्षिणा ततो ब्रवीन् महातेजा सर्वान् भ्रातृन् युधिष्ठिरः श्रुतम् वैपुरुषव्याघ्रा यन्माम् द्वैपायनोऽब्रवीत् तदा तद्वचनम् श्रुत्वा मरणे निश्चिता सर्वक्षत्रस्य निधने यद्यहम् हेतुरीप्सितः कालेन निर्मितस्तात कोममार्थोस्ति जीवतः एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत महाराजन् कश्मलम् घोरं प्रविशो बुद्धिनाशनं संप्रधार्य महाराज यत्क्षेमं तत्समाचर ततोऽब्रवीत् सत्यधृतिर्भ्रातृन् सर्वान्युधिष्ठिरः द्वैपायनस्य वचनं ह्येवम् समनुचिन्तयन्